श्रीमद्भागवत् महापुराणं नवमस्कन्ध अथ सप्तमोऽध्यायः राजात्यशङ्कु और् हरिश्चन्द्रकी कथा श्रीशुकुवाच मान्धातो पुत्रप्रवरो योऽम्बरीशप्रकीर्तितः पितामहेन प्रवृत्तो यो नास्वश्च हारितस्तस्य पुत्रो भुन्मान् धातृप्रवरा इवे नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साययोरगैः तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया गन्धर्वानवधीत तत्र बन्ध्यान् वै विष्णुशक्तिधीं नागाल्लब्धवरपंसर्पादभयं स्मरतां स्मरतामिदम् तस्य दस्योपौरुकुत्सो यो नरण्यस्य देहकृ हर्यस्वस्तस्तुतस्तस्मान् अरुणोऽथ त्रिबन्धनः तस्य सत्यव्रतपुत्रिशङ्कुरिति विश्रुतः प्राप्तश्चाण्डालतां शापाद्गुरु कौशिकतेजसां स शरीरो गतः स्वर्गम् अद्यापीति विदृश्यते पातितो वाक्शिरा देवैस्तेनैव स्तम्भितो बलात् त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः यन्मे तम् अभुद्युद्धं पक्षिणो बहुवार्षिकं सोनपत्यो विषण्णात्मानार्दस्योपदेशतः वरुणं शरणं यात पुत्रो मे जायतां प्रभो यदि वीरो महाराज ते तेनैव त्वां यजे इति तथेति वर्णो नाश्य पुत्रो जातस्तुरोहितः जातसुतोशनीनाङ्ग मां जयस्वेति सोऽब्रवीत् यदा पसुर्निर्निर्दर्शशादथ मेध्यो भवेदिति निर्दसे स निर्दसे च स आगत्य यजस्वेत्याहसो ब्रवीत् दन्तापशोर्यज्वा यैरन्यथ मेध्यो भवेदिति जाता दन्ता यजस्वेति स प्रत्याहाथ सो ब्रवीत् यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति पशो निपतिता दन्ता यजस्वेत्याहसो ब्रवीत् यदा पशु पुनर्दन्ता जायतेऽन्थ पशु शुचिः पुनर्जाता यजस्वेति स प्रत्याहाथसो ब्रवीत् सान्नाहिको यदा राजन् राजन्योऽथ पशु शुचिः इति पुत्रानुरागेण स्नेहयन्ति चेतसां कालं तमुक्तो देवस्त्वमैक्षत रोहितस्तद्विज्ञाय पितुः कर्म चिकीर्षितं प्राणप्रेसुर्धनुष्पाळी अरण्यं प्रत्यपद्यत पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरं रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत भूमे पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः रोहितायादिश्रशोऽप्यरण्ये वसत् समाम् एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा अभीत्याभ्येतस्थविरो विप्रो भूत्वाह वृद्धः षष्ठं संवत्सरं तत्र चरित्वा रोहितः अप्रभ्रजन्न जिगर्तादक्रीडान्मध्यं मध्यमं सुतं सुनक्षेपं पशुं पित्रे प्रदाय संवन्दत ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः मुक्तोत्तरो यजयद्देवान् वरुणादीन् महत्कथ विश्वामित्रो भवत्यस्मिन् भूता चाध्वर्युरात्मवान् जं दग्नेरभुद्ब्रह्मा वसिष्ठो याशींसामगः तस्मै तुष्टो ददामिन्द्रः सात्कौरम्भमयं रथम् शुनसे पश्यमाहात्मम् उपविश उपरिष्टात् प्रचक्षते सत्यसारां धृतिं दृष्ट्वा स च भूपतेः विश्वामित्रो भिष्टं प्रीतो ददावभितां गतिम् मनः पृथिव्यां तामद्भि तेजसा पोनिलेन तन् खेवायुं धारयस्तच्च भूतादौ तं महात्मने तस्मिन् ज्ञानकलां ध्यात्वा तया ज्ञानं विनिर्दहेन् हित्वा तांशेन भावेन अनिर्देश्या पृतर्केण तस्थो विध्वस्तबन्धनः इति श्रीमद्भागवते महापुराणे पारं हंसां शयितायां नमो स्कन्दे हरिश्चन्द्रोपाख्यानं नाम सप्तमोऽध्यायः